अथ शतततम सर्गहा जटिल चीर वसन प्राजलि पति भुवि ददर्श रामो दुर्दर्शम युगां ते भास्कर कथिदि विज्ञा विवर्ण वदनमश भ्रातरम भरत राजग्राह पा आघ्रास्त मूर्धिपरषव्य च राघव अङ्के भरतमारोप्य पर्यपृच्छत सादरम् क्वनु ते भूत्पिता तात यदरण्यम् त्वमागतः न हि त्वम् जीवतस्तस्य वनमागन्तुमर्हसि चिरस्य बत पश्यामि दूरात् भरतमागतम् दुष्प्रतीकमरण्येऽस्मिन् किम् तात वनमागतः कच्चिन्नुधरते तात ता कच्चिन्नदीनः सहसा राजा लोकान्तरम् गतः कच्चित् सौम्यनते राज्यम् भ्रष्टम् बालस्य शाश्वतम् कच्चिच्छुश्रूषसेतातपितुः सत्यपराक्रमा कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः राजसूयाश्वमेधानामाहर्ता धर्म निश्चितः स महाद्युतिः पाध्यायो यथा वत्तात पूज्यते तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती सुखिणी कच्चिदार्या च देवी नन्दति कैकयी कच्चिद्विनयसम्पन्नः कै। कुलपुत्रो बहुश्रुतः अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः कच्चिदग्निषुते युक्तो विधिज्ञो पुरम् च काले वेदयते सदा कच्चिद्देवान्पितॄन् भृत्यान् गुरुन् पितृसमानपि वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे विश्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् सुधन्वानमुपाध्यायम् कच्चित्त्वम् तात मन्यसे कच्चिदात्मसमाशूरा श्रुतवन्तो जितेन्द्रियाः कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तातमन्त्रिणः मन्त्रो विजयमूलम् हिराज्ञाम् भवति राघव सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः कच्चिन्निद्रावशम्नैषु कच्चित् कालेव बुध्यसे कच्चिच्चापररात्रेषु चिन्तयस्य अर्थ नैपुणम् कच्चिन्मन्त्रयसेनैकः कच्चिन्न बहुभिः सह कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रम् न परिधावति कच्चिदर्थम् विनिश्चित्य लघुमूलम् महोदयम् क्षिप्रमारभसे कर्म नदीर्घयसि राघवा कच्चिन्न सुकृतान्येव कृतरूपाणि वा पुनः विदस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः कच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः त्वया वा तवामाद्यैर्बुध्यते तातमन्त्रितम् कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् पण्डितो ह्यर्थकृच्छेषु कुर्यान्निःश्रेयसम् महत् सहस्राण्यपि मूर्खाणाम् यद्युपास्ते महीपतिः अथवाप्ययुतान्येव नास्ति तेषु सहायता एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः राजानम्राजपुत्रम् वा प्रापयेन्महतीम् श्रियम् कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः जघन्याश्च जघन्येषु भृत्यास्तेतातयोजिताः अमात्यानुपधातीतान्पिकृपयिता महान् शुचीर श्रेष्ठाच्छ्रेष्ठेषु कच्चित्वम् नियोजयसि कर्मसु कच्छिन्नोऽग्रेण दण्डेन भृशमुद्वेजिताः प्रजाः राष्ट्रे तवावजानन्ति मन्त्रिणः कैकयीसुता कच्चित्त्वाम् यथा उग्रप्रतिग्रहीतारम् कामयानमिव स्त्रियः उपायकुशलम् वैद्यम् शूरमैश्वर्यकामम् च योहम् दिनसहन्यते कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्छुचिः कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः दृष्टापदानाविक्रान्तास्त्वया सत्कृत्यमानिताः कच्चिद्बलस्य च वेतनम् च यथोचितम् सम्प्राप्तकालम् दातव्यम् ददासि न विलम्बसे कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सु महान् कृतः कच्चित् सर्वेणु रक्तास्त्वाम् कुलपुत्राः प्रधानतः कच्चित् प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् यथोक्तवादी दूतस्ते कृतो भरतपण्डितः कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च त्रिभिस्त्रिभिरविज्ञातैर्वेत्सितीर्थानि चारकैः अनर्थकुशलाह्येते बालाः पण्डितमानिनः धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः बुद्धिमान् वीक्षिकीम् प्राप्य निरर्थम् प्रवदन्ति ते वीरैरध्युषिताम् पूर्वमस्माकम् तातपूर्वकैः सत्यनामाम् दृढद्वाराम् हस्त्यश्वरथसङ्कुलाम् ब्राह्मण क्षत्रियकर्म निरत सदा जितेन्द्रियमहोत्हैर्वृता भार्य सहस्रशहधावृताजनाकुला कच्चि स मुदिताफीताध्यासे कच्चिच्यशतर्जुष सुनिष्ट जकुह देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः प्रहृष्ट नर नारीकः समाजोत्सवशोभितः सुकृष्टसीमापशुमान् हिंसाभिरभिवर्जितः अदेव परिवर्जितः परित्यक्तो भयैः सर्वैः कच्चिज्जनपदस्फीतः सुखं वसति राघवा कर्चित्ते दयिताः सर्वे कृषिको रक्षजीविनः वार्तायाम् संश्रितस्तात लोकोऽयम् सुखमेधते तेषाम् गुप्तिपरिहारैः कच्चित्ते भरणम् कृतम् रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः कच्चित् स्त्रियः सान् त्वयसे कच्चित्तास्ते कच्चिन् श्रद्दा सच्चि गुह्यं न भाषसे कचिन्नागमनम गुप्त कच्चिते सीधा कच्चि न गणिकाश्वा कुंजरा चृप्यसी कच्चिदर्शयसे निषाण विभूषित उत्थ्वाजपुत्र महापथे कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते विशङ्कया सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः यन्त्रैश्च प्रतिपूर्णानि तथा शिल्पिधनुर्धरैः आयस्ते विपुलः कश्चित् कच्चिदल्पतरो व्ययः अपात्रेषु न ते कोशो गच्छति राघव देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च योधेश मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः कच्चिदार्योऽपि शुद्धात्मा क्षारितश्चापकर्मणा अदृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः गृहीतश्चैव पृष्टश्च काले दृष्टः स कारणः कच्चिन्नमुच्यते चोरोधनलोभान्नरर्षभा व्यसने कच्चिदाढ्यस्य दुर्बलस्य च राघव अर्थम् निरागाः पश्यन्ति तवा मात्या बहुश्रुताः यानि मिथ्या विशस्तानाम् पतन्त्यश्रूणि राघवा तानि पुत्रपशोन्घन्ति प्रीत्यर्थमनुशासतः कच्चिद्वृद्धांश्च बालांश्च वैद्यान्मुख्यांश्च राघव दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि कच्चिदर्थेन वा धर्ममर्थम् धर्मेण वा पुनः उभौ वा प्रीतिलोभेन कामेन न विबाधसे च कामम् च धर्मम् वरा विभज्य कालज्य सर्वान् वरद कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः आशंसन्ते महाप्राज्ञपौरजानपदैः सह क्रोधं प्रमादं प्रमादम् दीर्घसूत्रताम् अदर्शनम् ज्ञानवता मालस्यम् पञ्चवृत्तिताम् एकचिन्तनमर्थानामनर्थज्ञैश्च मङ्गलाद्यप्रयोगम् च प्रत्युत्थानम् च सर्वतः कच्चित्तम् वर्जयस्येतान् राजदोषांश्चतुर्दश दश पञ्चचतुर्वर्गान् सप्तवर्गम् च तत्त्वतः अष्टवर्गम् त्रिवर्गम् च विद्यास्तिस्रश्च राघव इन्द्रियाणाम् जयम् बुद्ध्वा षागुण्यम् दैवमानुषम् कृत्यम् विंशतिवर्गम् च तथा यात्रादण्डविधानम् च द्वियोनिसन्धिविग्रहौ कच्चिदेतान्महाप्राज्ञ यथावदनु मन्यसे मन्त्रिभिस्त्वम् यथोद्दिष्टम् चतुर्भिस्त्रिभिरेव कच्चित्समस्तैर्व्यस्तैश्च मन्त्रम् मन्त्रयसे बुधा कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः कच्चित्ते सफलादाराः कश्चित्ते सफलम् श्रुतम् कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव आयुष्या च यशस्या च धर्मकामार्थसंहिता याम् वर्तते तातो याम् च नः वर्तसे कच्चिद्या च सत्पथगाशुभा कच्चित् स्वादुकृतम् भोज्यमेको नाश्नासि राघव कच्चिदाशम्समानेभ्यो मित्रेभ्यः सम्प्रयच्छसि राजा तो धर्मेण हि पालय पतिर्दंडर प्रजाला अवाप्यस्ना वसुताुतर्ग मुपै विद्वान्याशे श्रीमद्राणे वाक आदि का्य अयोध्याकांडे शततम सर्ग